युधिष्ठिर उवाच नार्थोपभोगलिप्सार्थमियमर्थेऽप्सुता मम भरणार्थम् तु विप्राणाम् ब्रह्म काङ्क्षे न लोभतः कथम् ह्यस्मद्विधो ब्रह्मन् वर्तमानो गृहाश्रमे भरणम् पालनम् चापि न कुर्यादनुयायिनाम् संविभागोहि हि भूतानाम् सर्वेषामेव दृश्यते तथैवापचमानेभ्यः प्रदेयम् गृहमेधिना तृणानि भूमिरुदकौ वाक्चतुर्थी च सूनृता सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन देयमार्तस्य चयनम् स्थितश्रान्तस्य चासनम् तृषितस्य च पानीयम् क्षुधितस्य च भोजनम् चक्षुर्द्यान्मनो दद्याद्वाचम् दद्यात् सुभाषिताम् उत्थाय चासनम् दद्यादेश धर्मः सनातनः प्रत्युत्थायाभिगमनम् अग्निहोत्रमनड्वांश्च ज्ञातयोतिथिबान्धवाः पुत्रादाराश्च भृत्याश्च निर्दहेयुरपूजिताः आत्मार्थम् पाचयेन्नान्न वृथाघातयेत् पशून् न च तत्स्वयमश्नीयात् विधिवत् यन्न वैश्वदेवं शपचेभ्य वोभ्यपे भुवि वैश्वेत विघसाशी भवे तस्मान भवस्मामृतभोजन विघसो भुक्शेषंतू यमृत